जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च योगीन्द्राणां च योगीन्द्रगुरूणां गुरुभे गुरु नमः मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डनमृत्योरिष मृत्युबीज मृत्युञ्जय नमोऽस्तु ते कालरूपं कलयतां कालकालेश कारणकालादतीतकालस्थकालकालनमोऽस्तु ते गुणातीतगुणाधार गुणबीजगुणात्मक गुणीशगुणिनां गुनी बीज गुणीनां गुर्वे नमः ब्रह्मस्वरूपब्रह्मज्ञ ब्रह्मभावे च तत्पर ब्रह्मबीजस्वरूपेण ब्रह्मबीजनमोऽस्तु ते इति स्तुत्वा शिवं नत्वा पुरुस्तस्थो मुनीश्वरः दीनवत्साश्रुनेत्रश्च पुलकाञ्चितविग्रहः असितेन कृतं स्तोत्रं भक्तियुक्तश्च पठेत् वर्षमेकं हविष्यासि शंकरस्य महात्मनः सलभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनं भवेद्धनाढ्यो दुःखी च मुको भवति पंडितः अभार्यो लभते भार्या सुशीलाञ्च पतिव्रतां यलोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् इदं स्तोत्रं पुरा दत्तं ब्रह्मणा प्रचेतसे प्रचेतसा स्वपुत्राय सिताय दत्तमुत्तमम्